श्रीमद्भागवत् महापुराणं दशं स्कन्ध द्वादशोऽध्यायः इत्थं मिथोतथ्यमतभासितं श्रुत्वापि चिन्तेत्यमिषामिषायते रक्षो वि दत्त्वाखिलभूत स्थितः स्वानां निरोद्धुं भगवान् मनोददे तावत्प्रभृतां त्वसुरोदरान्तरं परं न गीर्णाशिशुभशवसा प्रतिक्षमाणेन बकारिवेषनं हस्तस्वकान्तस्मरणेन रक्षसा तान् वीक्ष्य कृष्णशकलाभयप्रदोहनन्यनाथान् सुकरादवच्युतान् दीनाश्च मृत्योर्जठराग्निघासां घिणार्जितो देशकृतेन विस्मितः कृत्यं किमत्रा स खलस्य जीवनं न वा अमीषां च सतां विहिंसनम् द्वयम् कथं स्यादिति संविचिन्त्यत्वा विसृन्तुण्डमसेतदिघरी तदा घनच्छदा देवा भया धाहेति चुकृषो दहुसूर्ये च कंसाद्या कोणपात्वघबान्धवा तच्चित्वा भगवान् कृष्णा त्वव्ययसार्भवस्तुकम् चूर्णीचिकीर्षोरात्मानं तरसा वपृषे गली ततो ते कायस्य निरुद्धमार्गिणो शुरगिलदृष्टे भ्रमतत्वितस्ततः पूर्णोऽन्तरङ्गे पवनो निरुद्धो मूर्धन् विनिष्पाट्य विनिर्गतो बहिः तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वस्तान् सृहृदपरे तान् दृष्ट्वा श्वयोत्थाप्य तदन्वितः पुनर्वक्त्रान्मुकुन्दो भगवान् विनिर्ययौ पीनाहि भोगोत्थितमद्भुतं महन् ज्योतिषधाम्नाज्ज्वलि यद्विषोदश प्रतिक्षुखेव स्थितमीश निर्गमं दिवे स तस्मिन्मिषतां ततो त्रिष्ठा स्वकृतो कृतार्हणं पुष्पैसुरा अवसरस्वस्य गीतैः सुगावाद्यसरास्य वाद्यतैः सवैशविभ्राजयिनीश्वनिर्गणाः तदद्भुतस्तोत्रसुवाद्यगीतिका जयादिनैको स्वमङ्गलस्वनान श्रुत्वा सुधाम्नोत्यजं नागतो चिरा दृष्ट्वा महिषस्य जगामविस्मयं राजन्नाजगरं चर्मशुष्कं वृन्दावनेद्भुतम् व्रजौ कसां बहुतिथं बहुं दभुवा क्रीडगह्वरम् एतत् कोमारजं कर्म हरेरात्मा हि मोक्षणं मृत्योपोगण्डके बाला दृष्टोचुर्विस्मिता व्रजे नैतद्विचित्रम् अनुजार्भिमायिनः परावराणां परमस्य भेधसा अगोपि यस्मर्शनधोतपातकप्रापात्मसाम्यं तसतां सुदुर्लभं सगिर्यदङ्गप्रतिमान्तराहिता मनोमयि भागवतिं ददौ गतिम् स एव नित्यात्मसुखानुभूत्यभिं व्युदस्तमायोऽन्तर्गतो हि किं पुनः श्रुत्वाच इत्थं दिदायादव देवदत्त श्रुत्वा स्वरातु चरितं प्रपक्षभूयोऽपि तदेव पुण्यं वैयास किं जन्यगृहीतचेता राजुवाच ब्रह्मन् कालान्तर्कृतं तत्कालीनं कथं भवे यत्कोमारे हरिकृतं जगोपौगण्डके भकाः तद्ब्रोहि मे महायोगिन् परं कौतूहलं गुरो नूनमे माया भवति नान्यताम् वयं धन्यतमालोके गुरोऽपि छत्रबन्धव यत्पिबामो मुहुस्त्वत्त पुण्यम् कृष्णकथामृतम् श्रोतुवाच इत्थम् स्म पृष्ट स तु बादरायणी तस्मारितान् नन्तर्हिताखिलेन्द्रियः कित्सात् पुनर् पुनर्लब्ध बहिर्जशेषणैः प्रत्याहतम् भागवतोत्तमोत्तम एशीमद्भागुते महापुराणे पारहंसां चैतायां दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः